मार्कण्डेयपुराणम् अध्यायं 105 रवेर फैव् रवेर्माहात्म्यवर्णनं मार्कण्डेय उवाच एवं सूर्यस्तवं कुर्वन्विश्वकर्मादिवस्पदेः तेजसषोडशं भागं मण्डलस्थमधारयत् साधितैस्तेजसो भागैर्दर्शभिः पञ्चभिस्तथा अतीवकान्तिमच्चारु भानोरासीत्तदा वपुः साधितं चास्य यत्तेजस्तेन चक्रं विनिर्मितं विष्णोः शूलं च शिबिका धनदस्य च दण्डप्रेतपदे शक्तिर्देवसेनापदेस्तथा अन्येषां चैव देवानामायुधानि स विश्वकृत चकार तेजसा भोर्भासुराण्यरिशान्तये यदि पपुर्दधारमार्तण्डः सर्वावयवशोभनं सददर्शसमाधिस्थस्वां भार्यां वडवाकृतिम् अदृश्यां सर्वभूतानां तपसा नियमेन च उत्तरांश्च कुरून् भूत्वाश्वो भानुरागमद सा च परपुंसो विशङ्गया जगामसमुखे तस्य तत्परा ततश्च नासिकायोगं तयोस्तत्र समेधयोः वडवायं च तत्तेजो नासिकाभ्यां विवस्वतः देवौ तत्र समत्पन्ना वश्नौषाबरौ न सत्यस्रौ तनया वश्वक्नौर्तंड सुधा वेद वश्वर से हि रेद सौंतेचरे बंधखी धन्वीतनुत्रधृक अश्वारूढसमुद्भूतो बाणतूणसमन्वितः ततः स्वरूपममलं दर्शयामास भानुमान् तस्य शान्तं समालोक्य मुदमाददे स्वरूपधारिणीं चे सनिनाय निजालयम् संज्ञां भार्याम् प्रीतिमतीं पास्करो वारितस्करः ततः पूर्वसुतो योऽस्यासोभूद्वैवस्वतो मनुः द्वितीयश्च यमः शापाद्धर्मदृष्टिरनुग्रहात् यमस्तु तेन शापेन भृशं पीडितमानसः धर्मो भिरोचते स्मृतः कृमयो मां समादाय पादतस्ते महीतलं पदिष्यन्तीदिशापान्तं तस्य चक्रे स्वयं धर्मदृष्टिर्यतश्चार्षौ मित्रे तथाहिते ततो नियोगे तं याम्ये चकार तिमिरापहः तस्मै ददौ पिता विप्रभगवाल्लोकपालदां पितॄणामाधिपत्यं च परितुष्ठो दिवाकरः यमुनां च नदीं चक्रे कलिन्दान्तरवाहिनी अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना गुह्यकाधिपदित्वे च रेवन्तो विनियोजितः एवमप्याहचततो भगवाल्लोकभावितः त्वमप्यशेषलोकस्य पूज्यो वत्स भविष्यसि अरण्यादिमहादाववैरिदस्युभयेषु च त्वां स्मरिष्यन्ति ये मर्त्या मोक्ष्यन्ते ते महापदः क्षेमं बुद्धिं सुखं राज्यं राज्यमारोग्यं कीर्तिमुन्नतिं नराणां परितुष्टस्त्वं पूजित सम्प्रदास्यसि छाया संतश्चा सवर्णिशुमश्य सो नागदे काले मनुसवर्कोष्ठम मेरूपृष्ठे तपोखोरमी चरदी प्रभु भ्रता शनैश्चरस्तो भूच्चा सनाद्रे यवीयसी तु या कन्यादित्यस्या भूद्विजोत्तमा अभवत् सा सरिश्रेष्ठा तपदी लोकपावनी यस्तु ज्येष्ठो महाभागः सर्गो यस्येह साम्प्रतं विस्तरं तस्य वक्ष्यामि मनोर्वैवस्व तस्य इदं यो जन्मदेवानां शृणुयाद्धा पठे तवा विवस्वतस्तनूजानां रवेर्माहात्म्यमेव च आपदं प्राप्यमुच्ये द प्राप्नुयाच्च महायशः अहोरात्र कृतं पापमे माहात्म्यमादिदेवस्य मार्दण्डस्य माहात्मनः इति श्रीमार्कण्डेयपुराणे रवेर्माहात्म्यवर्णनं नाम पञ्चाधिकशततमोऽध्यायः ओ